वटविटपि समीपे भूमिभागे निषण्णम् सकलमुनिजनानाम् ज्ञानदातारमारात् त्रिभुवनगुरुमीशम् दक्षिणामूर्तिदेवम् जननमरणदुःखेददक्षम् चित्रम् बडतरोर्मूले वृद्धा शिष्या गुरोस्तु मौनम् व्याख्यानम् शिष्यास्तु छिन्न गुरवे सर्वलोकानाम् भिषजे भवरोगिणा निधये सर्वविद्यानाम् दक्षिणामूर्तये नमः दक्षिणामूर्तये नमः छिद्दनाय महेशाय परमूलनिवासि सच्चिदानन्दरूपाय दक्षिणामूर्तये नमः भद्रार्थदात्रीन् सपरशुहरिणाम् बाहुभिर्बाहुमेकम् जान्वासक्तम् दधानो भुजगवर समाबद्धकक्ष्यो वटार्धः आसीलचन्द्रकण्ड प्रतिघटितजटः क्षीरगौरत्रिनेत्रग दद्यादाद्यैः शुकाद्यैः मुनिभिरभिनुतो भावशुद्धिं भवो नः ॐकारशैलेन्द्रसिंहाय नमः ओङ्कारोद्यानकोकिलाय नमः ॐकारनीडशुकराजे नमः ओम् ओङ्कारारण्यकुञ्जराय नमः ॐ नगराजसुताजानये नमः ॐ नगराजनिलयाय नमः ॐ नवमाणिक्यमालाढ्याय नमः नवचन्द्रशिखामणये नमः ॐ नन्दिताशेषमौनीन्द्राय नमः ॐ नन्दीशादिमदेशिकाय नमः ॐ मोहालसुधासाराय नमः ॐ मोहाम्बुजसुधाकराय नमः ॐ मोहान्धकारतरणये नमः ॐ मोहोत्पलनभोमणये नमः भक्तज्ञानाब्धिशीतांशवे नमः ॐ भक्ताज्ञानतृणानलाय नमः ॐ भक्ताम्भोजसहस्रांशवे नमः ॐ भक्तकेकिघनाघनाय नमः ॐ भक्तकैरवराकेन्दवे नमः ॐ भक्तकोगदिवाकराय नमः ॐ गजाननाविसम्पूज्याय नमः ॐ गजचर्मोर्ज्वलाकृतये नमः ॐ गङ्गाधव दिव्याङ्गाय नमः ॐ गङ्गाभङ्गलसटाय नमः ॐ गगनाम्बरसंविताय नमः ॐ गगनामुक्तमूर्धजाय नमः ॐ वदनाब्जिताब्जश्रिये नमः ॐ वदनेन्दुस्फुरद्दिशाय नम नमः निपुणा नम ओंोजलत्क नम ओं वनवास सोल्लासा नम ओं वन वैरकलोलुपा नम ओं तेजपुंज गाए नम ओं तेज सासकाय नम ओं विनिया तेज प्रदा नम तेजोमय निराश्रमा नम ओं दमितांगसंग्रमा नम ओं दरहासितांगनाय नम ओं दया रससुदा सिंधव नम ओं दरिद्रधनश नम ओं क्षीरेन् दुस्फिकाकाराए नम ओं क्षीरेन्कुटोज्वलाय नम ॐ क्षीरोपहाररसिकाय नमः ॐ क्षिप्रैश्वर्यफलप्रदाय नमः ॐ नानाभरणमुग्धाङ्गाय नमः ॐ नारीसम्मोहनाकृतये नमः ॐ नादब्रह्मरसास्वादिने नमः ॐ नागभूषणभूषिताय नमः ॐ मूर्तिनिन्दितकन्दर्पाय नमः ूर्तामूर्त जगद्वपुषे नमः ॐ मूकाज्ञानतमो भान्वे नमः ॐ मूर्तिमत्कल्पपादपाय तरुणादित्यसङ्काशाय नमः ॐ तन्त्रीवादनतर्पराय नमः ॐ तरुमूलैकनिलयाय नमः तप्तजाम्बूनदप् तोल्लसत्पाणये नमः ॐ तपनोडुपलोचनाय नमः ॐ यम संनुत सत्कीर्तये नमः ॐ यमसंयमसंयुताय नमः ॐ यतिरूपधराय मौनिने नमः ॐ यतीन्द्रोपास्य विग्रहाय नमः ॐ मन्दारहाररुचिराय नमः मदनायुतसुन्दराय नमः ॐ मन्दस्मितलसत्वक्त्राय नमः ॐ मधुराधरपल्लवाय नमः ॐ मञ्जीरमञ्जुपाराब्जाय नमः ॐ मणिपट्टोल्लसत्कटये नमः ॐ हस्ताङ्कुरितचिन्मुद्राय नमः ॐ हठयोगपरोत्तमाय नमः ॐ हंसजप्याक्षमालाढ्याय नमः ॐ हंसेन्द्राराध्यपादुकाय नमः ॐ मेरुशृङ्गतटोल्लासाय नमः ॐ मेघश्याममनोहराय नमः ॐ मेधाङ्कुरालवालाग्रयाय Namah ॐ मेधापक्वफलद्रुमाय नमः ॐ धार्मिकान्तर्गुहावासाय नमः मार्गप्रवर्तकाय नमः ॐ धामत्रय निजारामाय नमः ॐ धर्मोत्तमममनोरथाय नमः ॐ प्रबोधोद्गारदीपश्रिये नमः ॐ प्रकाशितजगत्त्रयाय नमः ॐ प्रज्ञाचन्द्रशिलाचन्द्राय नमः ॐ प्रज्ञामणिवराकराय नमः ॐ ज्ञान्तरान्तरभागात्मने नमः ॐ ज्ञातृज्ञातिविदूरगाय नमः ॐ ज्ञानज्ञाद्वैतदिव्याङ्गाय नमः ॐ ज्ञातृज्ञातिकुलागताय नमः ॐ प्रपन्नपारिजाताग्रयाय नमः ॐ प्रणतार्ति अब्धिपाडवाय नमः ॐ भूतानां प्रमाणभूताय नमः ीतकारकाय नमः ॐ यत्तत्त्वमसि संवेद्याय नमः ॐ यक्षगेयात्मवैभवाय नमः ॐ यज्ञादिदेवतामूर्तये नमः ॐ यजमानवपुर्धराय नमः ॐ क्षत्राधिपतिविश्वेशाय नमः ॐ क्षत्रचामरसेविताय नमः ओम छंदास्त्रादी निपुणा नम ओम छल जात्यादिदूरगाय नम ओम स्वाभाविकमने स्वाभूतिरसोद नम ओं स्वाज्य अध्यक्षाय नम ओम, ओम, ओम स्वात्मा महामतये नम ओम हाटका ओम भजटाचूटा मण्डलाय नमः ॐ हालाहलोज्ज्वलगलाय नमः ॐ हारायुत मनोहराय नमः द्युद्रोः हध स्वर्णमया सरस्थम् मुद्रोल्लसद् बाहुमुदारकान्तिम् तं च न